कृष्णयजुर्वेदे क्रमपाठे सप्तमकाण्डे प्रथमः प्रश्नः प्रारम्भः ओ प्रजनम् प्रजननमिति ज्योतिरग्निः अन्येवतानाम् देवतानाम् देवताना, ज्योतिः ज्योतिर्विराड् विराट् छन्दसाम् विराड्दिवीराड् विराड विराड छन्दसाम् ज्योतिः ज्योतिर्विराड् विराड्वाचः विराड्दिवीराड् विराड वाचो अन्नौ सम् सन्तिष्ठते तिष्ठते विराजम् विराजमपि विराजमिति विराजम् अभिसम् संवर्ध्यते पद्यते तस्मात् तस्मात्तत् तद्ज्योतिः ज्योतिरुच्यते रुच्यते द्वौ द्वौ स्तोमौ स्तोमौ प्रातस्सवनम् प्रातःसवनम् वहतः प्रातःसवनमिति प्रातः सवनम् वहतो यथा यथा प्राणः प्राणश्च प्राण प्राणः चापानः अपानश्च अपान इत्यपानः षड्वौ द्वौ माध्यन्दिनम् माध्यन्दिनकं सवनम् सवनन्यथाुः चक्षुश्च च श्रोत्रम् श्रोत्रम् च षड्भौ द्वौ तृतीयसवनम् तृतीयसवनव्यथा तृतीयसवनमिति तृतीयासवनम् यथा वाग्वाक्चप्रतिष्ठा प्रतिष्ठा च प्रतिष्ठेति प्रतिष्ठा च पुरुषसंमितः पुरुषसंहितो वै पुरुषसंहित इति पुरुषसंहितः वा एषः एष यज्ञः यज्ञो स्थूलि अस्थूरिबियम् किम् कामम् कामम् कामयते कामयते तम् तमेतेन एतेनाभि अभ्यश्नुते अश्नुते सर्वम् सर्वम् हि ह्यस्थूरिणा अस्थूरिणाभ्यश्नुते अभ्यश्नुते अग्निष्टोमेन अभ्यश्नुत इत्यभि अश्नुते अग्निष्टोमेन वै अग्निष्टोमेनेत्यग्निस्तोमेन वै प्रजापतिः प्रजापतिः प्रजाः प्रजापतिरिति प्रजापतिः प्रजा असृजत प्रजा इति अग्निश्रोमेन अग्निश्रोमेनैव अग्निश्रोमेनेत्यग्ने स्तोमेन एव परि पर्यगृह्णात् अग्रगृह्णात् तासाम् तासाम् परिगृहीतानाम् परिगृहीतानाम् अश्वतरः परिगृहीतानामिति परिगृहीतानाम् अश्वतरोति अत्यप्रवत अप्रवतस्य तस्यानुहाय अनुहायरेतः अनुहायेत्यनुहाय रेथः आदत्तर्दभे गर्दभेमाड् तस्मात् तस्माद् गर्दभः गर्दभो द्विरेताः द्विरेताथो द्विरेता इति द्विरेताः तथो आहो अथो इत्यथो आहुर्वडवायाम् वडवायान् अमार्डिति इति तस्मात् तस्माद्वडवा वडवा द्विरेताः द्विरेताथो द्विरेता इति द्विरेताः अथो आहो अथो इत्यथो आहुरोषधीषु ओषधीषु निर्ड् अमार्डिति इति तस्मात् तस्मादोषधयः ओषधयो नभ्यक्ताः अनभ्यक्ता रेभङ्गे अनभ्यक्ता इत्यनभिर्यक्ताः रेभन्त्यथो अथो आहो अथो इत्यथो आहुः प्रजासु प्रजास्वि प्रजास्वि प्राजासु यमार्ड् अमार्डिति इति तस्मात् तस्माद्यमौ यमौ जायेते जायेते तस्मात् जायेते इति जायेते तस्मादश्वतरः अश्वतरो नः प्रजायते जायतात्तरेताः आत्तरेता हि आत्तरेता इत्यात्तरेताः हि तस्मात् ब्धः अनवक्लब्धः सर्ववेदसे अनवक्लब्धैत्य न वा क्लब्धः सर्ववेदसे वा सर्ववेदसेति सर्वा वा सहस्रे था, सहस्रे वावक्लब्धः अवक्लब्धोऽति अवक्लब्धैत्य एवम् एवम् विद्वान् विद्वानग्निष्टोमेन अग्निष्टोमेन यजते अग्निष्टोमेनेत्यग्निष्टोमेन यजते प्र अजाताः प्रजाः प्रजा जनयति प्रजा इति प्राजाः जनयति परि परि प्रजाताः प्रजाता गृह्णाति प्रजाता इति प्राजाताः गृह्णाति तस्मात् तस्मादाहुः आहुर्ज्येष्ठयज्ञः ज्येष्ठयज्ञ ज्येष्ठायज्ञः इति प्रजापतिः प्रजापतिर्वाव प्रजापतिर्ति प्रजापतिः वावज्येष्ठः ज्येष्ठः सह स हि ये अयजत प्रजापतिः प्रजापतिरकामयत प्रजापतिरिप्रजापतिः रकामयत प्रजायया जायेति यदि सः समुखतः मुखदसृतम् त्रिवृतम्निः त्रिवृतमिति त्रिवृतम् निरमिमीत अमिमीतम् प्रमग्निः अग्निर्देवताः देवताः अन्वसृजत गायत्री गायत्री छन्दः रथन्तरकंसाम रथन्तरमिति रथन्तरम् सामब्राह्मणः ब्राह्मणमनुष्याणाम् मनुष्याणामजः अजः पशूनान् पशूनान्द्रस्मात् तस्मात् ते मुख्याः मुख्या मुखदा हि असृजन्त असृज्यन्तो रसः उरसो बाहुभ्याम् बाहुभ्याम् पञ्चदशम् बाहुभ्यामिति बाहुभ्याम् पञ्चदशन्निः पञ्चदशमिति पञ्चादशम् निरमिमीत अमिमीतम् तमिन्द्रः इन्द्रो देवताः देवतानो अन्वसर्जत असृजतृष्टुप् त्रिष्टुप्छन्दः छन्दो बृहत् बृहत्साम सामराजन्यः राजन्यो मनुष्याणाम् मनुष्याणामभिः अभिः पुशूनाम् ना, पशूनान्नस्मात् तस्मात् ते ते वीर्यावन्दः वीर्यावन्दो वीर्यात् वीर्यावन्द इति वीर्यावन्दः वीर्याद्धि असृर्जण्ड असृजण्डमध्यदः मध्यदः सप्तदशम् सप्तदशम् निः सप्तदशमिति तम् विश्वे विश्वे देवाः देवादेवताः देवतानो अन्वसृज्यन्त असृज्यन्त जगति जगति छन्दः छन्दो वैरूपम् वैरूपकं साम सा वैष्यः वैश्व मनुष्याणाम् मनुष्याणाम् रावः रावः पशूनाम् पशूनाम् तस्माद् तस्मात् ते आद्याः आद्या अन्नधानाद् अन्नधानाद्धि अन्नधानादित्यन्नधानाद् असृज्यन्त तस्माद्भूयागुंसः भूयागुंसोऽन्येभ्यः अन्येभ्यो भूयिष्ठाः भूयिष्ठा हि हि देवताः देवता नो अन्वसृज्यन्त पत्तः पत्त एकविपुंसम् एकविपुंसन्निः एकविपुंसमित्येक विगुंशम् निरमिमीत अमिमीतम् तमनुष्ठुप् तम अनुष्टुप्छन्दः अनुष्टुवित्यनोस्तु छन्दो नो अन्वसृज्यत असृजत वैराजम् वैराजगुंसाम सामशूद्रः मनुष्याणामश्वः अश्वः पशूराम् पशूराम् तस्मात् तस्मात्तौ तौ भूतसङ्ग्रामिणौ भूतसङ्ग्रामिणा वश्वः भूतसङ्ग्रामिणाविधिभूतासङ्ग्रामिणौ अश्वश्च च शूद्रः शूद्रश्च च तस्मात् तस्माच्छूद्रः शूद्रो यज्ञे यज्ञेनवक्लप्तः अनवक्लप्तो न अनवगलुप्त इत्यनवागृप्तः न हि हि देवताः देवता नो अन्वसृजत तस्मात्पादौ पादा उप उपजीवतः जीवतः पत्तः तत्तो हि यसृज्येताम् असृज्येताम् प्राणाः प्राणा वै प्राणा इति प्राणाः वै त्रिवृत् जवृदर्धमासाः त्रिवदति त्रयवृत् अर्धमासाः पञ्चदशः अर्धमासा इत्यर्धमासाः पञ्चदशः प्रजापतिः पञ्चदश इति पञ्चादशः प्रजापतिः सप्तदशः प्रजापतिलिप्रजापतिः सप्तदशस्त्रयः सप्तदश इति सप्तादशः त्रय इमे इमे लोकाः लोका असौ असावादित्यः आदित्य एकविभुंशः एकविभुंश एतस्मिन् एकविभुंश इत्येकविभुंशः एतस्मिन् वै वा एते एते श्रिताः श्रिता एतस्मिन् एतस्मिन् प्रतिष्ठिताः प्रतिष्ठितायः प्रतिष्ठिता इति प्रतिष्ठिताः एवम् एवम् वेद वेद एतस्मिन् एतस्मिन्नेव एव श्रयते श्रयत एतस्मिन् एतस्मिन्प्रति प्रतिष्ठलि ति तिष्ठरीति तिष्ठलि राजसवने वै राजसवनैरि प्रातः सवने वै गायत्रेण गायत्रेण छन्द्र छन्द्र त्रिवृतेः त्रिवृते स्तोमाय त्रिवृत इति त्रिवृतेः स्तोमाय ज्योतिः एति त्रिवृताः त्रिवृताः ब्रह्मवर्चसेन त्रिवृतेति त्रिवृताः ब्रह्मवर्चसेन पञ्चदशाय ब्रह्मवर्चसेनेति ब्रह्मवर्चसेन पञ्चदशाय ज्योतिः पञ्चदशायैति पञ्चादशाय ज्योतिर्दधर् रथदेति एति पञ्चदशेन पञ्चदशेन ओजसा पञ्चदशेनेति पञ्चादशेन ओजसा वीर्येण वीर्येण सब्ददशाय सप्तदशाय ज्योतिः प्तदशेनेति सप्तादशेन प्राजापत्येन प्रजननेन प्राजापत्येनेति प्राजापत्येन प्रजनेनैकविभुंशाय प्रजननेनेति प्रजनेन एकविभुंशाय ज्योतिः एकविघुंशायैत्येकविभुंशाय ज्योतिर्दधत् रथदेति एति स्तोमः स्तोम एव एतत् तत्स्तोमाय स्तोमाय ज्योतिः ज्योतिर्दधत् रथदेति एत्यथो अथो स्तोमे अथो यद्यथ स्तोम एव स्तोमम् सोममभि अभिप्रणयति मयदि यावन्तः यावन्तो वै वै स्तोमाः तावन्तो लोकाः लोकास्तावन्ति तावन्तिोगेगुंषि योगे कृष्येतावतः एतावत एव एव स्तोमान् स्तोमानेतावतः एतावतो लोकान् लोकानेतावन्दि एतावन्दि ज्योतिगुंसि ज्योतिगुश्यपरुन्धे वृन्धैति वृन्धे ब्रह्मवादिनो वदन्ति ब्रह्मवादिनैति ब्रह्मवादिनः वदन्ति स तु त्वयि वै यजेत यजेतयः योग्निष्टोमेन अग्निष्टोमेन यजमानः अग्निष्टोमेनेत्यग्निस्तोमेन यजमानोऽथ सर्वस्तोमेन सर्वस्तोमेन यजेत सर्वस्तोमेन सर्वा स्तोमेन यजेतेति इति यस्य यस्य त्रिवृतम् त्रिवृतमन्तर्यन्ति त्रिवृतमिति त्रिवृतम् अन्तर्यन्ति प्राणान् अन्तर्यन्तीत्यन्तः यन्ति प्राणागस्तस्य प्राणानिति प्राणान् तस्यान्तः अन्तर्यन्ति यन्ति प्राणेषु मेऽपि अप्यसद् असदिति इति खलु खलु वै वै यज्ञेन यजमानः यजमानो यजते यजते यस्य यस्य पञ्चदशम् पञ्चदशमन्तर्यन्ति पञ्चदशमिति पञ्चादशम् अन्तर्यन्ति वीर्यम् अन्तर्यन्ति इत्यन्तः यन्ति तस्यान्तः अन्तर्यन्ति यन्ति वीर्ये वीर्ये मे मेऽपि अप्यसद् असदिति इति खलु यज्ञेन यजमानः यजमानो यजते यजरेयस्य यस्य सप्तदशम् सप्तदशमम् धर्यन्ति सप्तदशमिति सब्दादशम् अन्तर्यन्ति प्रजाम् अन्तर्यन्तीत्यन्दः यन्द्रिय प्रजान्तस्य प्रजामिति प्राजाम् तस्यान्दः अन्तर्यन्ति यन् प्रजायाम् प्रजायाम् मे प्रजायामिति प्राजायाम् मेऽपि अप्यसत् असदिति इति खलु खलु वै वै यज्ञेन यज्ञेन यजमानः यजमानो युजते यजदेयस्य यस्यैकविघुंसम् एकविघुंसमम् धर्यन्ति एकविकुंशमित्येकविवंशम् अन्तर्यन्ति प्रतिष्ठाम् अन्तर्यन्ते इत्यन्तः यन्ति प्रतिष्ठान्तस्य प्रतिष्ठामिति प्रतिष्ठाम् तस्यान्तः अन्तर्यन्ति यन्ति प्रतिष्ठायाम् प्रतिष्ठायाम् मे प्रतिष्ठायामिति प्रतिष्ठायाम् ेऽपि अप्यसत् असदिति इति खलु खलु वै वै यज्ञेन यजमानः यजमानो यस्य यस्य त्रिणवम् त्रिणवम् तर्यन्ति त्रिणवमै त्रिणवम् अन्तर्यन्ति इत्यन्तयन्ति ऋतुगुश्च क्षतस्य तस्य नक्षत्रियाम् नक्षत्रियाञ्च विराजम् विराजमन्तः विराजमिति विराजम् अन्तर्यन्ति यन् ऋतुषु मे मेऽपि अप्यसत् असन्नक्षत्रियायाम् च विराजि विराजीति विराजीति विराजि इति खलु वै वै यज्ञेन यज्ञेन यजमानः यजमानो यजते यस्य यस्य त्रयस्त्रिहुंशम् त्रयस्त्रिवंशमन्तर्यन्ति त्रयस्त्रिवंशमिति त्रयः त्रिवंशम् अन्तर्यन्ति देवताः अन्तर्यन्ति इत्यन्तः देवतास्तस्य तस्यान्तः अन्तर्यन्ति इन्द्रि देवतासु देवतासु मेऽपि अप्यसत् हसदिति इति खलु खलु वै वै यज्ञेन यज्ञेन यजमानः यजमानो यजते यजते यजः यो वै वै स्तोमानाम् स्तोमानामवमम् अवमम् परमताम् परमताम् गच्छन्तम् गच्छन्तम् वेद वेद परमताम् परमतामेव एव गच्छति गच्छति त्रिवृद्वै त्रिभुदि त्रिवृत् वै स्तोमानाम् स्तोमानामवमः अवमस्त्रिवृत् त्रिभृत्परमः त्रिभुतिरित्रैवृत परमो यः य एवम् एवं वेद एतपरमताम् परमतामेव एव गच्छति गच्छतीति गच्छति अङ्गिरसो वै वै सत्रम् सत्रमासद आसदते ते सुवर्गम् सुवर्गं लोकम् सुवर्गमिति सुभागम् लोकमायन् आयन् तेशाहम् तेषाकम् हविष्मान् हविष्मागश्च अविष्कृत्य अविष्कृति हविः कृताम् तावकामयेताम् अकामयेताम् स्वर्गम् स्वर्गम् लोकम् स्वर्गमिति सुवभागम् लोकमि याव यावेति तौ तावेतम् एतम् द्विरात्रम् विरात्रमपश्यताम् विरात्रमिति द्विरात्रम् अपश्रान्तम् तमा आहरताम् अहृतान्तेन तेना यजेताम् अयजेतान्ततः ततो वै वैदौ तौ सुवर्गम् स्वर्गम् लोकम् स्वर्गमिति सुहागम् लोकमैता एतान्यः एवम् एवम् विद्वान् विद्वान्द्विरात्रेण विरात्रेण युजते विरात्रेण द्विरात्रेण युजते सुवर्गम् स्वर्गमेव स्वर्गमिति सुवहागम् एव लोकमेति ये तौ तवैताम् एताम् पूर्वेण पूर्वेणाह्नाः अह्नागच्छताम् अगच्छतामुत्तरेण उत्तरेणाभिप्लवः उत्तरेणेन्द्रितोत्तरेण अभिप्लवः पूर्वम् अभिप्लवैत्यभिप्लवः पूर्वमहः अहर्भवति भवति गतिः उत्तरम् ज्योतिष्टोमः उत्तरमित्युतोत्तरम् ज्योतिष्टोमो अग्निष्टोमः सोमः अग्निष्टोमः पूर्वम् सोमः पूर्वमहः अहर्भवति भवति तेन एना वा अवरुन्धे वृन्धे सर्वस्तोमो यदि रात्रः सर्वस्तोम इति सर्वास्तोमः अतिरात्र उत्तरम् अतिरात्र इत्य रात्रः उत्तरम् सर्वस्य उत्तरमित्युत्तम् सर्वस्याज्ञै आज्ञै सर्वस्य सर्वस्यावर्ध्यै अवर्ध्यै आयत्रम् अवर्ध्या इत्यवरुद्धिः आयत्रम् पूर्वे पूर्वेऽहन् अहम् साम भोजितेजः तेजो वै वै गायत्री गायत्री गायत्री गायत्री ब्रह्मवर्चसम् तेजः ब्रह्मवर्चसमिति एव एव ब्रह्मवर्चसम् ब्रह्मवर्चसमात्मन् ब्रह्मवर्चसमिति ब्रह्मवर्चसम् आत्मन्धत्ते वृन्दे त्रैष्टुमम् त्रैष्टुपमुत्तरे उत्तरगोजः उत्तरैद्योदरे ओजो वै वै वीर्यम् वीर्यम् दृष्टुग दृष्टुगोजः एव वीर्यम् वीर्यमात्मन् आत्मम् धत्ते दे रसन्दरम् रसन्दरम् पूर्वे रसन्तरमिति रथम् पूर्वेऽहन् अहम् साम साम इयम् वै वै रथन्दरम् रथन्तरमस्याम् रथन्तरमिति अस्यामेव एव प्रति प्रतिष्ठति तिष्ठति बृहद् बृहदुत्तरे उत्तरेऽसौ असौ वै वै बृहद् बृहदनुष्याम् अनुष्यामेव प्रतिष्ठति तिष्ठति तदाहुः आहुः जगति च चा, चानुष्टुब् अनुष्टब्ज अनुष्टुभित्यनोस्तुब चेति इति वैखानसम् वैखानसम् पूर्वे पूर्वेऽहन् अहंसाम साम भवति तेन तेन जगत्यै जगत्यै इति षोडशी षोडश्युत्तरे उत्तरे तेन उत्तर इत्युदुत्तरे तेनानुष्टुभः अनुष्टुभोध अनुष्टुभैत्यनौस्तुभः तथाहो आहुर्यर् यत्समाने समाने अर्धमासे अर्धमासे स्यादा अर्धमासे इत्यर्धमासे स्यादामन्यतरस्य अन्यतरस्यान्धः अन्धो वीर्यम् वीर्यमनु अनुपद्येत पद्येतेति इत्यमावास्यायाम् अमावास्यायाम् पूर्वम् अमावास्यायामित्यमावास्यायाम् पूर्वमः अहर्भवति भवद्युत्तरस्मिन् उत्तरस्मिन्नुत्तरम् उत्तरस्मिन् धरस्मिन् नाना उत्तरमित्युतो धर्मम् नानैव एवार्धमासयोः भवतो नानावीर्ये नानावीर्ये भवतः नानावीर्ये इति नानावीर्ये भवतो हविष्मन्निधनम् हविष्मन्निधनम् पूर्वम् हविष्मन्निधनमिति हविष्कृतनिधनम् पूर्वमह अहर्भवति हविष्कृन्निधनम् हविष्कृणिधनमुत्तरम् हविष्कृन्निधनमिति हविष्कृतनिधनम् प्रतिष्ठत्यै उत्तरमित्यतो धनम् प्रतिष्ठित्यै आपो इदमग्रे अग्रे सलिलम् सलिलमासीत् आसीत् तस्मिन् तस्मिन् प्रजापतिः प्रजापतिर्वायोः प्रजापतिरिति आयुर्भूत्वा भूत्वाजरद् अजरत्सः स इमाम् इमामपर्षत् अपरिष्यत्ताम् ताम् वराहः भूत्वा भूत्वाहरत् आहरत् अहरत्ताम् ताम् विश्वकर्मा विश्वकर्मा भूत्वा विश्वकर्मे विश्वकर्मा भूत्वा वि व्यमार्ट् साप्रथद अप्रसदसा सा पृथिवी पृथिव्यभवत् अभवत्तत् तत्पृथिव्यै पृथिव्यै पृथिविक्तम् पृथिविक्तम् तस्याम् पृथिवित्वमिति पृथिवीत्वम् तस्यामश्राम्यता अश्राम्यत्प्रजापतिः प्रजापतिः सह प्रजापतिरिति प्रजापतिः देवान् देवानस असव्यदवसोन् असोन् रुद्रान् रुद्रानादित्यान् आदित्यान्ते देवाः देवाः प्रजापतिम् प्रजापतिमब्रवन् प्रजापति प्रजापतिम् प्रजायामहे यामः इति सः सोऽ यथाहम् अहं युष्मान् युष्मायस्तपसा तादृक्षि असृक्ष्येवम् हेवम् तपसि तपसि प्रजननम् प्रजननमिच्छध्वम् प्रजननमिति प्रजननम् यच्छध्वमिति इति तेभ्यः तेभ्योऽग्निम् अग्निमायतनम् आयतनम् प्रा आयतनमित्यायतनम् प्रायच्छते न यच्छतेन एतेनायतनेन आयतनेन श्राम्यत आयतनेनेत्यायतनेन श्राम्यतेति इति ते हेऽग्निना अग्निनायतनेन आयतनेनश्राम्यन् आयतनेनेत्यायतनेन अश्राम्यन्ते ते संवत्सरे संवत्सरे गाम् संवत्सर इति संवत्सरे हे गाङ्गाम् गामसृन्द असृन्दताम् असुभ्यो वर्द्रेभ्यः असुभ्यैदिवसोभ्यः रुद्रेभ्यः आदित्येभ्यः आदित्येभ्यः प्रयच्छन् अयच्छन् एताम् एताकं रक्षध्वम् रक्षध्वमिति यदि ताम् ताम् वसवः रुद्राः आदित्याः आदित्याः रक्षन्द रक्षन्दसा सा वसुभ्यः असुभ्यो वर्द्रेभ्यः आदित्येभ्यः आदित्येभ्यः प्रजायत त्रीणि च त्रिशतानि शतानि त्रयस्त्रिविंशतम् त्रयस्त्रिविंशतम् च त्रयस्त्रिविंशतमिति त्रयः त्रिविंशतम् चाथ अथ सा सैव एव सहस्रतमी सहस्रतम्यभवत् सहस्रतमीति सहस्रादमी अभवत्ते ते देवाः देवाः प्रजापतिम् प्रजापतिमब्रुवन् प्रजापतिमिति प्रजापतिम् अब्रुवन् सहस्रेण सहस्रेण नः नो इति सः सोऽष्टोमेन अर्निष्टोमेन वसून् अग्निष्टोमेनेत्यग्नि स्तोमेन वसून याजयद् अयाजयत्ते त इमम् इमम् लोकम् तच्च चादुः अददुःसः स उक्त्येन उक्त्येन रुद्रान् रुद्रानयाजयद् अयाजयत्ते एवेन्दरिक्षम् अन्तरिक्षमजयन् अजयन्दद् तच्च चादुः अददुः सह सोऽधिरात्रेण अतिरात्रेणादित्यान् अतिरात्रेणेत्यधिरात्रेण आदित्या न याजयत् याजयत्ते एवम् अमम् लोकम् लोकमजयन् अजयन् तत् तच्च आदतुः तदस्तद् तदन्तरिक्षम् अन्तरिक्षम् व्यवैर्यत व्यवैर्यत तस्माद् व्यवैर्यतेदि अवैर्यत तस्माद् रुद्राः रुद्राघातुकाः घातुकानायतनाः अनायतना हि अनायतना अशिथिलम् शिथिलम् वै वै मध्यमम् मद्यों, मध्यममहः अहस्त्रिराद्रस्य त्रिराद्रस्य वि त्रिराद्रस्य यदि त्रिरात्रस्य विहि एतत् तदवैर्यत अवैर्यतेति अवैर्यतेत्यव अवै अवै अवै अवै अैर्यत इति त्रैष्टुभम् त्रैष्टभम् मध्यमस्य मध्यमस्यान्धः अन्धवाज्यम् आज्यम् भवति भवति संयानानि संयानानि सोक्तानि संयानामेति सोक्तानि शकंसति सोक्तानीति सोक्तानि शकंसति षोडशिनम् षोडशनकम् शकंसति शकंसत्यह्नः अह्नो धृत्यै धृत्या अशिथिलम् भावाय अशिथिलम्भावाय तस्मात् अशिथिलम्भावाय अशिथिलम्भावाय तस्मात् क्रीडाद्रस्य त्रिराद्रस्याग्निष्ठोमः त्रिराद्रस्य इति त्रिराद्रस्य अग्निष्ठोम एव अग्निष्ठोम इत्यग्निष्टोमः एव प्रथमम् प्रथममहः अहः स्यात् स्यादथ अथोक्ष्यः उक्ष्योऽथ अथातिरात्रः अधिरात्र एषाम् अधिरात्र इति त्रिरात्रः एषाम् लोकानाम् लोकानाम् विधृत्यै विधृत्यै त्रीणि त्रीणि शतानि त्रीणि त्रीणि द्वित्रीणि त्रीणि शतान्योचीनाहम् अनूचीनाहमव्यवच्छिन्नानि अनूचीनाहमित्यनूचीना अहम् अव्यवच्छिन्नानि ददाति अव्यवच्छिन्नानि इत्यच्छिन्नानि ददात्येषाम् येषाम् लोकानाम् लोकानामनु अनुसन्दद्यै सन्नद्यै दशतम् सन्नद्यादिसन्दै दशतम् न विच्छिन्न्यात् विराजम् विराजन्न विराजमिति विराजम् इत्युच्छिन्नानि इच्छति इत्यनदानीति इत्यथा अर्थया या सहस्रतमे सहस्रतम्यासीत् सहस्रतमे सहस्रतमी आसीत् तस्याम् तस्यामिन्द्रः इन्द्रश्च च विष्णुः विष्णुश्च च व्यायच्छेदा व्यायच्छेदासः व्यायच्छेदामिति वि आयच्छेदाम् स इन्द्रः इन्द्रामन्यत अमन्यतानया नया वै वा विष्णुः विष्णुः सहस्रम् सहस्रम् रक्ष्यते रक्ष्यत इति तस्याम् तस्यामगल्वेदान् अगल्वेदान् विभागे विभाग इन्द्रः विभाग इति द्विभागे इन्द्रस्तृतीये तृतीये विष्णुः विष्णुस्तत् तद्वै वा एष एषाभ्यनोमुच्यते अभ्यनोमुञ्च्यत उभा अभ्यनोमुच्यत इत्यभि अनोच्यते उभा जिगुः जिगथुरिति विदिताम् ताम् वै वा एताम् एतामच्छावाकः अच्छावाक या सहस्रदमी सहस्रदमी सा सहस्रतमीति सहस्रातमी सा होत्रे होत्रे देया देयेति यदि होदारम् होदारम् वै वा अभ्यतिरिच्यते अभ्यतिरिच्यते यत् अभ्यतिरिच्यते इत्यभिच्यते यदतिरिच्यते अतिरिच्यते होदा अतिरिच्यते इत्यतिरिच्यते होदानाब्दस्य अनाहब्दस्यापयिता आपयिताथ उन्नेत्रे देया उम्नेत्रे नेत्रे देयेति इत्यतिरिक्ता अतिरिक्ता वै अतिरिक्तेत्यतिरिक्ता वा एषा एषा सहस्रस्य सहस्रस्यातिरिक्तः अतिरिक्त उन्नेता अतिरिक्त इत्यतिरिक्तः उन्नेताम् उन्नेतेत्युदो नेता मृत्विजामथ तथाहोः आहुः सर्वेभ्यः सर्वेभ्यः सदस्येभ्यः सदस्येभ्यो देया देयेति इत्यथ अथाहो आहुरुदाकृत्या उदाकृत्या सा उदाकृत्येत्युद वशम् वशम् चरेत् चरेदिति इत्यथा अथाहुः आहुर्ब्रह्मणे ब्रह्मणे च साग्नीधे अग्नीधे च अग्निधैत्यग्नीधे चरेया येजेति इति ब्रह्मणे विभागमिति ब्रह्मणे तुनीधे अग्नीधन्द्रः अग्नीधैत्यग्नीधे ऐन्द्रो वै वै ब्रह्म ब्रह्मा वै विष्णवः वैष्णवो अग्नीत् अग्नेत्यग्मीद् यथैव एव तौ तावकम्भेदाम् अकम्भेधामिति इत्यथा अथाहुः आहुर्या या कल्याणी कल्याणी बहुरूपा बहुरूपा सा अहुरूपेति बहुरूपा सा इत्यथा अथाहोः आहुर्या या द्विरूपा विरूपो भयदयिनी विरूपेति द्विरूपा उभयदयेनी सा उभयदयेनीत्युभयदः एनी सा देयेति इति सहस्रस्य सहस्रस्य परिगृहीत्यै परिगृहीत्यैतत् परिगृहीत्या इति परिगृहीत्यः तद्वै वा एतत् एतत्सहस्रस्य सहस्रस्यायनम् अयनकम् सहस्रम् सहस्रग्स्तोत्र्याः स्तोत्रसहस्रम् सहस्रम् दक्षिणाः दक्षिणासहस्रसंविदः सहस्रसंहितस्वर्गः सहस्रसंहित इति सहस्रसंविदः स्वर्गो लोकः स्वर्ग लोकस्वर्गस्य स्वर्गस्य लोकस्य स्वर्गस्य इति सुभागस्य लोकस्याभिरुत्यै अभिरुद्धः इत्यभिरुद्यै सोमो वै वै सहस्रम् सहस्रमविन्दद अविन्दत्तम् तविन्द्रः इन्द्रो न अन्वविन्दद अविन्दत्तौ यमः यमोऽन्यागच्छद् न्यागच्छत्तौ न्यागच्छदिति नि आगच्छद तावब्रवीद् अब्रवीदस्तु अस्तु मे मेऽत्र अत्रापि अविधि इत्यस्तु अस्तु हि इति इत्यब्रूदा अब्रूदा पुंसः स यमः यम एकस्याम् एकस्याम् वेल्यम् वेल्यम् वरि पर्यवर्षद् अवर्षदियम् इयम् वै वा अस्य अस्य सहस्रस्य सहस्रस्य वीर्यम् वीर्यम् बिभर्ति विभर्तीति यदि तौ तावब्रवीत् अब्रवीदियम् इयम् मम अमास्तु अस्त्वेतत् एतद्युवयोः युवयोरिति यदिदौ तावब्रूदा अब्रूदा सर्वे सर्वे वै वा एतत् एतदेतस्याम् एतस्याम् वीर्यम् परिपश्यामः पश्यामोऽगुंशम् अगुंशमा आह रामै इति तस्याम् तस्यामगुंशम् अगुंशमा आहरन्त अहरन्तताम् रामप्सु अप्सु प्र अप्सुद्यपुसु प्रावेशयन् अवेशयान् सोमाय सो देहि सो उदेहीति उदेही इत्युददेहि उदेही इति सा सा रोहिणी रोहिणी पिङ्गला पिङ्गलैकहायिनी एकहायिनी रूपम् एकहायिनीत्येकाहायिनी रूपम् कृत्वा कृत्वा त्रयस्त्रिगुंशता त्रयस्त्रिगुंशता त्रयस्त्रिकंसते त्रयः त्रिकंशता क्षर्त्रिभिः त्रिभिश्च त्रिभिरित्रिभिः त्रिशतैः शतैः सह सहोदैद् उदैत्तस्मात् उदैदित्युत ऐद् तस्माद्रोहिण्या रोहिण्यापिङ्गलया पिङ्गलैकहायन्या एकहायन्या सोमम् एकहायन्येत्येका हायिन्या सोमम् क्रीणीयात् क्रीणीयाद्यः यदेवम् एवम् विद्वान् विद्वान् रोहिण्या रोहिण्यापिङ्गलया पिङ्गलैकहायन्या एकहायन्या सोमम् एकहाजन्येत्येकाजन्यः सोमम् क्रीणाति क्रीणाति त्रयस्त्रिगुंशदा त्रयस्त्रिगुंशदा च त्रयस्त्रिगंशतेति त्रयः त्रिगुंशदा चैव एवास्य अस्य त्रिभिः त्रिभिश्च त्रिभिरिति त्रिभिः च शतैः शतैः भवति भवति सुक्रीतेन सुक्रीतेन यजते सुक्रीतेने तिसु क्रीतेन यजते ताम् तामप्सु प्रावेशयन् प्रवेशयन् इन्द्राय इन्द्रायो देहि उदेहीति उदेहीत्युदयैः इति सा सा रोहिणी रोहिणी लक्ष्मणा लक्ष्मणापष्टौ हि अष्टौ हि वार्त्रघ्नि वार्त्रघ्निरूपम् वार्त्रघ्नीति वार्त्राघ्नि रूपम् कृत्वा कृत्वा त्रयस्त्रिविंशता त्रयस्त्रिविंशता च त्रयस्त्रिविंशतेति त्रयः त्रिभिश्च त्रिभिरित्रिभिः चश्रैः श्रदैः सह उदैतस्मात् उदैरित्युदयैर तस्माद्रोहिणीम् रोहिणी लक्ष्मणाम् लक्ष्मणाम् पृष्ठौहीम् पृष्ठौहीम् वात्रग्नीम् वात्रग्नीम् दद्याद् वात्रग्निमिति वात्राघ्नीम् दद्याद्यः यदेवम् एवम् विद्वान् विद्वान् द्रोहिणीम् रोहिणीं लक्ष्मणाम् लक्ष्मणाम् पृष्ठौहीम् पृष्ठौहीम् वात्रघ्नीम् वार्त्रघीम् ददाति वार्त्रघमिति वार्त्राघम् ददाति त्रयस्त्रिकंषत् त्रयस्त्रिंशद् च त्रयसृगिंषदिति त्रयः त्रिगिंसद् चैव एवास्य अस्य त्रीणि त्रीणि शतानि शतानि सा सा दत्ता दत्ता भवति भवति ताम् तामप्सु अप्सुप्र अप्सिद्यभोसु प्रावेशयन् उदेहीति उदेहीत्युत एहि इति ति, सा, सा जलति मूर्खा मूर्खादज्जघन्या अज्जघन्या रूपम् अज्जघन्येति तत् जघन्या रूपम् कृत्वा कृत्वा त्रयस्त्रिगंशदा त्रयस्त्रिगंशता च त्रयस्त्रिगंशतेति त्रयः त्रिगुंशदा च त्रिभिः त्रिभिश्च त्रिभिरिति त्रिभिः चशतेः शतैः सह सहोदैर् उदैतस्मात् उदैरित्युदैर् मूर्खा मूर्खान्त्रज्जघन्याम् तज्जघन्यामनस्तरणीम् तज्जघन्यामिति तद् जघन्या हनस्तरणीम् कुर्वेद हनस्तरणे नित्यनोस्तरणे कुर्वेदयः एवम् एवम् विद्वान् विद्वान् जलदिम् जलदीम् मूर्खा मूर्खान्तज्जघन्याम् तज्जघन्यामनस्तरणे तज्जघन्यामिति अनुस्तरणीम् कुरुते अनुस्तरणीमित्यनोस्तरणीम् कुरुते त्रयस्त्रिविंशत् त्रयस्त्रिविंशच्च त्रयस्त्रिंशदिति त्रयः त्रिविंशत् चैव एवास्य अस्य त्रीणि त्रीणि च शतानि शतानि सा अनुष्मिन् अमुष्मिल्लोके लोके भवति भवति वाग् एव सहस्रतमी सहस्रतमी तस्मात् सहस्रतमीति सहस्रादमी तस्माद्वरः यः सा सा हि किवरः वरःसहस्रम् सहस्रमस्य अस्य सा दत्ता भवति भवति तस्मात् तस्माद्वरः वरो न प्रतिगृह्यः प्रतिगृह्यः सा प्रतिगृह्यः सा हि किवरः सहस्रमस्य अस्य प्रतिगृहीतम् प्रतिगृहीतम् भवति प्रतिगृहीतमिति प्रतिगृहीतम् भवतीयम् इजम् वरः वर इति ब्रूयाद् ब्रूजादथ अथान्याम् अन्याम् ब्रूयात् क्रूयादियम् इयम् मम अमेति इति रुधाः अस्य अस्य तत् सहस्रमप्रतिगृहीतम् अप्रतिगृहीतम् भवति अप्रतिगृहीतमित्यप्रतिगृहीतम् भवत्युभयदयिनि उभयदयिनी स्यात् उभयदयिनीत्युभयदः येन या तद् तदाहुः आहुरन्यतयिनि अन्यतयिनी स्यात् अन्यतयेनीत्यन्यतः येन सहस्रम् सहस्रम् परस्ताद् परस्तादेतम् एतमिति या यैव एव वरः वरः कल्याणि कल्याणी रूपसमृद्धा रूपसमृद्धा सा रूपसमृद्धेति रूपासमृद्धा सा स्यात् स्यात् सा सा हि हि वरः वरः समृद्ध्यै समृद्ध्येताम् समृद्ध्यायि समृद्ध्यै तामुत्तरेण उत्तरेणाग्नेध्रम् उत्तरेणेत्युदुतरेण आग्नेध्रम् वर्याणीय आहवनीयस्येत्या आहवनीयस्य अन्ते द्रोणकलशम् द्रोणकलशमव द्रोणकलशमिति द्रोणकलशम् अपघ्रापयेद्घ्रापयेदा आजिघ्रजिघ्रकलशम् कलशम् महि मह्युरुधारा उरुधारा पयस्वती उरुधारे जिरुधारा पयस्वत्या आ त्वाविशन्तु विशन्दिन्दवः इन्दवः समुद्रम् समुद्रमिव इव सिन्धवः सहस्रः भः प्रजया प्रजया पशुभिः प्रजयति प्राजयः पशुभिः सह पशुभिरिति पशुभिः सः पुनः मा हाविशदाद् अविषदाद्रैः रैरिति इति प्रजयाः प्रजयैव प्रजयति प्राजयः एवैनम् एनम् पशुभिः पशुभिरय्या पशुभिरिति पशुभिः रय्यासम् समर्धयति अर्धयति प्रजावान् प्रजावान् पशुमान् प्रजावानिति प्रजावान् पशुमान् रयिमान् पशुमानिति पशुमान् ग्रहीमान् भवति ग्रहीमानिति रयीमान् भवति यः यदेवम् एवम् वेद वेददया तया सह साग्नीघ्रम् आग्नीघ्रम् परेत्य आग्नीघ्रमित्याग्नीघ्रम् परेद्य पुरस्तात् परेद्येति परा इत्या पुरस्तात् प्रतीच्याम् प्रतीच्याम् तिष्ठन्त्याम् तिष्ठन्त्याम् जिहुयाद् जुहुयादुभा उभा जिगुः जिजथुर्न न पराः पराजयेथे रियेथेन जयेथे जयेधे न पराः पराजिज्ञे यिज्ञे कतरः इन्द्रश्च च विष्णोः विष्णो यत् विष्णो इति विष्णो यदपस्पृधेधा अपस्पृथेथान्द्रेधा त्रेधा सहस्रम् सहस्रम् विदत् तदैरयेथा वैरेधामिति इति त्रेधा विभक्तम् त्रेधा वै त्रेधा विभक्तमिति त्रेधा विभक्तम् वैत्रिरात्रे त्रिरात्रे सहस्रम् त्रिरात्रे इति त्रिरात्रे सहस्रकम् साहस्रीम् साहस्रीमेव एवैनाम् एनाम् करोति करोति सहस्रस्य सहस्रस्यैव एवैनाम् एनाम् मात्राम् मात्राम् करोति करोति रूपाणि रूपाणि जगोति जहोति रूपैः रूपैरेव एवैनाम् येनागुंसम् समर्थयति अर्धयति तस्याः तस्या उपोत्थाय उपोत्थाय कर्णम् उपोत्थायत्युपोत्थाय अर्णमा आजपेद् जपेदिडे इळेदन्ते अदिदे सरस्वति सरस्वति प्रिये प्रिये प्रेयसि प्रेयसि महि महि श्रुति दिवीश्रुति एतानि ते ते अग्निये नामानि नामानि सुकृतम् सुकृतम् मा सुकृतमिति सुकृतम् देवेषु देवेषु ब्रूताद् ब्रूतादिति इति देवेभ्यः देवेभ्य एवैनम् एनमा आवेदयति वेदयत्यनु अन्वेनम् एनम् देवाः देवा बुध्यन्ते बुध्यन्त इति बुध्यन्ते सहस्रदम्या वै सहस्रतम्येति सहस्रदम्याः वै यजमानः सुवर्गम् लोकम् सुवर्गमिति सुभागम् लोकमेति एतिसा सैनम् एनकम् सुवर्गम् स्वर्गम् लोकम् सुवर्गमिति सुभागम् लोकङ्गमयति गमेति सा सा माह मा सुवर्गम् स्वर्गम् लोकम् सुवर्गमिति इत्याह आह सुवर्गम् सुवर्गमेव सुवर्गमिति सुवहागम् एवैनम् एनम् लोकम् लोकङ्गमयति गमेति सा सा माह मा लोकङ्गमय गमयति इत्याह आह ज्योतिष्वन्दम् ज्योतिष्वन्दमेव एवैनम् एनम् लोकम् गम, लोकङ्गमयदि गमयति सा सा माः मा सर्वान् सर्वान् पुण्यान् पुण्यान् लोकान् लोकाङ्गमय गमयति इत्याह आह सर्वान् सर्वानेव एवैनम् एनम् पुण्यान् पुण्यान् लोकान् गमयति लोकान सा सा मा प्रतिष्ठाम् प्रतिष्ठाङ्गमय प्रतिष्ठाभिप्रजयस्था प्रजयाः प्रजया पशुभिः प्रजयेदि प्राजयाः पशुभिः सह पशुभिरिति पशुभिः पुनः पुनर्मा वा आविशदाद् विशदाद्रैः प्रयिरि इति प्रजयाः प्रजयैव प्रजयेदि प्राजयाः एवैनम् एनम् पशुभिः पशुभिरय्याम् पशुभिरिति पशुभिः रै्याम् प्रति प्र। प्रतिष्ठापयति स्थापयति प्रजावान् प्र। प्र। प्रजापानम् पृशुमान् प्रजापानिति प्रजावान् पशुमान् रयिमान् पृशुमानिति पृशुमान् रयिमान् भवति रयीमानिति रयीमान् भवति यः य एवम् एवम् वेद वेदताम् तामग्नीधे अग्नीधे वा अग्नीध इत्यग्नीधे वा ब्रह्मणे ब्रह्मणे वाहोत्रे होत्रे वा गोद्घात्रे उद्घात्रे वा अ उद्घात्रे इत्युत् घात्रे वाध्वर्यवे अध्वर्यवे वा दद्यात् सहस्रम् सहस्रमस्य अस्य सा सा दत्ता दत्ता भवति भवति सहस्रम् सहस्रमस्य अस्य प्रतिगृहीतम् प्रतिगृहीतम् भवति प्रतिगृहीतमिति प्रतिगृहीतम् भवति यः यस्ताम् अविद्वान् अविद्वान् प्रतिगृह्णाति प्रतिगृह्णाति ताम् प्रतिगृह्णातीति प्रतिगृह्णाति ताम् प्रति प्रतिगृह्णीयात् न एकासि असि सहस्रमेकाम् एकान्त्वा वा भूताम् भूताम् प्रति प्रतिगृह्णामि गृह्णामि न सहस्रम् सहस्रमेका एका मा भूता भूताविश आविश एकामेव एवैनाम् एनाम् भूताम् भूताम् प्रति प्रतिगृह्णाति गृह्णाति न सहस्रम् सहस्रं यः वेद एतस्योना स्योनासि असि सुषदाः सुषदा सुषेवाः सुषदेति Se va acciona se vede su se va acciona ma आविष षसुषदाः सुषदा मा सुषदेति सूसदा मा आविष षसुषेवाः सुषेवा मा सुषेवेति सुषेवाः मा आविश विषेति इत्याह आहस्योना स्योनैव एवैनम् केनकुम् सुषदाः सुषदा सुषेवाः सुषदेति सुसदाः सृषेवा भूता सुषेवेदि सुषेवाः भूताविषति आविशति विषतिर नैनुम् हेनकुम् हिनस्ते हिनस्य ब्रह्मवादिनः ब्रह्मवादिना वदन्ति ब्रह्मवादिन इति ब्रह्मवादिनः वदन्ति सहस्रम् सहस्रकुम् सहस्रतमी सहस्रतम्यनु सहस्रतमी इति सहस्रदमी अन्ते सहस्रतमी सहस्रतमी सहस्रा सहस्रतमीमिति सहस्रदमी सहस्रा इति यत्प्राचीम् प्राचीमुत्सृजेत् उत्सृजेत् सहस्रम् उत्सृजे सृजेत् सहस्रकम् सहस्रतमी सहस्रतम्यो सहस्रतमीति सहस्रदमी अन्वियात् इयात्तद् तत्सहस्रम् सहस्रमप्रज्ञात्रम् अप्रज्ञात्रकम् सुवर्गम् अप्रज्ञात्रमित्यप्रज्ञात्रम् स्वर्गम् लोकम् स्वर्गमिति सुभागम् लोकम् न प्रजानीयात् जानीयात् प्रतीचीयम् प्रतीचीमुद उत्सृजति सृजति ताम् ताकम् सहस्रम् सहस्रमनु अनुपर्यावर्तते पर्यावर्तते सा पर्यावर्तत इति आवर्तते सा प्रजानती प्रजानती सुवर्गम् प्रजानतीति प्रजानती सुवर्गम् लोकम् सुवर्गमिति लोकमेति एतयजमानम् यजमानमभि अभ्युत् उत्सृजति सृजति क्षिप्रे क्षिप्रे सहस्रम् सहस्रम् प्रजायते जायत उत्तमा उत्तमा नीयते उत्तमेऽद्युत उत्तमा नीयते प्रथमा प्रथमा देवान् देवान् गच्छति गच्छतीति गच्छति अत्र रददात् रदादौर्वाय और्वाय प्रजा प्रजाम् निर्वीर्यः निर्वीर्यशिथिलः निर्वीर्ये वीर्यः शिथिलो यातयामा यातयामासः यातयामेति यातायामाः स एतम् एतम् चतुरात्रम् चतुरात्रमपश्यत् चतुरात्रमिति चतुररात्रम् अवश्यत्तम् तमा आहरद् अहरत्तेन तेन यजन एतत्तः ततो वै वैतस्य तस्य चत्वारो वीराः वीरा आ आजायन्त अजायन्त सुबोद सुहोदा सु उद्गादा सुहोते तिषु होता सुद्गाता स्वध्वर्युः सोद्गादे तिषो उद्घाता स्वध्वर्युः सुसभेयः यदेवम् एवम् विद्वान् विद्वाविश्चतुरात्रेण चतुरात्रेण यजते चतुर्त्रेणेति चतुःरात्रेण यजत आ आस्य अस्य चत्वारः चत्वारो वीराः वीरा जायन्ते जायन्ते सुहोदा सुहोदासोङ्घ्रादा सुहोदे धिसो होदाः सोऽग्रादा स्वध्वर्युः सो उद्घाते दिसो उद्घाताः स्वध्वर्युः स्वभेयः स्वध्वर्युरि ये चतुर्विपुंसाः चतुर्विपुंशाः अवमानाः चतुर्विपुंसा इति ऋ विपुंसाः अवमाना ब्रह्मवर्चसम् तद्ये य उद्यन्तः उद्यन्त इत्युतयन्तः स्तोमा श्रीः श्रीः सा सा त्रिम् अत्रिग् श्रद्धादेवम् श्रद्धादेवम् यजमानम् श्रद्धादेव मजि श्रद्धादेवम् यजमानम् चत्वारि चत्वारि वीर्याणि वीर्याणि नोप उपानमन्न अनवन्तेरः ते च इन्द्रियम् इन्द्रियम् ब्रह्मवर्चसम् ब्रह्मवर्चसमन्नाद्यम् अन्नाद्यमित्यन्नाद्यम् स एतान् एताविश्चतुरः चतुरश्चतुष्टोमान् चतुष्टोमान् सोमान् चतुष्टोमान् इति ऋतुः स्तोमान् सोमानपश्यत् ताना आहरत् अहरद्ैः तैरयजत अयजत तेजः तेज एव एव प्रथमेन प्रथमेनाव अवारुन्ध अरुन्धेन्द्रियम् इन्द्रियम् ब्रह्मवर्चसम् तृतीयेन ब्रह्मवर्चसमिति ब्रह्मवर्चसम् तृतीयेनान्नाद्यम् अन्नाद्यम् चतुर्थेन अन्नाद्यमित्यन्नाद्यम् चतुर्थेन यः यदेवम् एवम् विद्वान् विद्वानिश्चतुरः चतुरश्चतुष्टोमान् चतुष्टो मान् सोमान् चतुष्टो मालिगुः सोमान् सोमानाहरति आहरदितैः आहरदीत्याहरति तैर्यजते प्रथमे नाम अवृन्धे वृन्ध इन्द्रियम् इन्द्रियम् द्वितीयेन द्वितीयेन ब्रह्मवर्चसम् ब्रह्मवर्चसम् तृतीयेन ब्रह्मवर्चसमिति ब्रह्म वर्चसम् तृतीयेनान्नाद्यम् अन्नाद्यम् चतुर्थेन अन्नाद्यमित्यन्नाद्यम् चतुर्थेन या यामेव एवात्रिः अत्रिवृद्धिम् वृद्धिमाध्नोत् आध्नोत्ताम् तामेव एव यजमानः यजमानः रुद्धौति रुद्ध्वौति इति रुद्धौति यजज्ञः पुष्टिगामः पुष्टिगामश्चतुर्रात्रेण पुष्टिगाम इति पृष्टिगामः चतुरात्रेणा यजत चतुरात्रेण यदि चतुः तस्मात् तस्मात् पलितौ फलितौ जामदग्न्यौ जामदग्न्यौ नते एतान् जानाते इति जानाते एतानेव एव ओषान् ओषान् पृष्यति पृष्यति यः एवम् एवम् विद्वान् विद्वाविषश्चतु रात्रेण चतुरात्रेण यजते चतुरात्रेण इति यजुदेव प्रोडाशिन्यः उपसदः उपसदा भवन्ति उपसद भवन्ति पशवः पशवो वै वैपुरोडाशः रोडाशः पशून् पशूनेव एवाव अवरुन्धे वृन्धेऽन्नम् अन्नम् वै वैपुरोडाशः रोडाशोऽम् अन्नमेव एवाव अवरुन्धे रुन्धेन्नादः अन्नादः पशुमान् अन्नाद इत्यन्नादः पशुमान् भवति पशुमान् इति पशुमान् भवति यः एवम् एवम् विद्वान् विद्वाविषतु रात्रेण ऋतुरात्रेण यजते ऋतोरात्रेणेति ऋतुरात्रेण यजत इति यजते संवत्सरो वै संवत्सर संवत्सरः वा इदमेकः एक आसीत् सः सोऽकामय अकामय तत्तून् त्रतोन् इति सः स एतम् एतम् पञ्चरात्रम् पञ्चरात्रमपश्यत् पञ्चरात्रमिति पञ्चारात्रम् अपश्यक्तम् कवा आहरत् अहरत्तेन तेना यजत ततो वै वै सह स ऋतोन् ऋतोनसृजत असृजतयः एवम् एवम् विद्वान् विद्वान् पञ्चरात्रेण पञ्चरात्रेण यजते पञ्चरात्रेण यजते प्रैव एव जायते जायते ता ते त ऋतवः ऋतवः सृष्टाः सृष्टा न व्यावर्तन्त व्यावर्तन्तते व्यावर्तन्तेदि वि आवर्तन्त स एतम् तमा आहरन् अहरन्तेन तेनायन्द अयजम् ददः वैते ते व्यावर्तन्त व्यावर्तन्तयः व्यावर्तन्तेदि वि एवम् एवम् विद्वान् विद्वान् पञ्चरात्रेण पञ्चरात्रेण यजते पञ्चरात्रेणेति पञ्चरात्रेण यजतेऽपि आत्मनाः आत्मना भ्रातृव्येण भ्रातृव्येण आवर्तते वर्तते सार्वसेनिः सार्वसेनिशौचेयः सार्वसेनिरिति सार्वसेनिः शौचेयो कामयत अकामयद पशुमान् पशुमान्स्याम् पशुमानिति पशुमान् स्यामिति इति सः स एतम् पञ्चरात्रमा पञ्चरात्रमिति पञ्चारात्रम् आहरत् अहरत्तेन तेनायजततः ततो वै वै सः ससहस्रम् सहस्रम् पशून् पशून् प्र प्राप्नोत् आप्नोद्यः विद्वान् विद्वान् पञ्चरात्रेण पञ्चरात्रेण यजते पञ्चरात्रेण यदि पञ्च रात्रेण यजते रात्रे रात्रे प्रसहस्रम् सहस्रम् पशून् पशूना आप्नोति आप्नोति बपरः अपरः प्रावाहणिः प्रावाहणिरकामयद अकामयदवाचः वाचः प्रवदिता प्रवदिता स्याम् प्रवदिते जिप्रावदिता स्यामिति इति सह एतम् एतम् पञ्चरात्रमा पञ्चरात्रमिति पञ्चरात्रम् आहर अहरत्तेन येनायुजत अयजततरः ततो वै वै सह वाचः प्रवदिता प्रवदिता भवत् प्रवदिते जिप्रावदिता अभवद्यः य एवम् एवम् विद्वान् विद्वान् वृञ्जरात्रेण पञ्चरात्रेण यजते पञ्चरात्रेणेति पञ्चरात्रेण यजते प्रवधिता प्रवधिरैव प्रवधितेति प्रवधिरा एव वाचः वाचो भवति प्रवद्यथो अथो एनम् अर्थो यद्यथो एनम् वाचः वाचस्पतिः पतिरिति इत्याहोः आहुरुना आप्तः अनाप्तश्च रात्रः त्रतो रात्रोऽतिरिक्तः चतुरात्र इति चतुः रात्रः अतिरिक्तः षड्रात्रः अतिरिक्त इत्यतिरिक्तः षड्रात्रोऽथ षड्रात्रैति षड् रात्रः अथ वै वा एष सम्प्रति सम्प्रति यज्ञः सम्प्रति सम्प्रति यज्ञो यत् यत्पञ्चरात्रः पञ्चरात्रो यः पञ्चरात्र इति पञ्चरात्रः एवम् विद्वान् विद्वान् पञ्चरात्रेण पञ्चरात्रेण यजते पञ्चरात्रेणेति पञ्च रात्रेण यजते सम्प्रति सम्प्रत्येव सम्प्रतीति सम्प्रति एव यज्ञेन यज्ञेन यजते यजते पञ्चरात्रः पञ्चरात्रो भवति पञ्चरात्रैति पञ्चरात्रः भवति पञ्च पञ्चवै मारुकवः ऋतवः संवत्सरः संवत्सर ऋतुषु संवत्सर इति संवत्सरः ऋतुष्वेव एव संवत्सरे संवत्सरे प्रति संवत्सर इति संवत्सरे प्रतिष्ठति तिष्ठत्यथो अथो पञ्चाक्षरात् अथवा इत्यतो वा पञ्चाक्षरापङ्किः पञ्चाक्षरे त्रिपञ्चाक्षराः पङ्क्तिः पान्तः पान्तो यज्ञः यज्ञो यज्ञम् यज्ञमेव एवाव अवरुन्धे रुन्धे त्रिवृत् त्रिवृदग्निष्टोमः त्रिवृत्ति क्ले अग्निष्टोमो भवति अग्निष्टोम इत्यग्निः सोमः भवति तेजः ते च एव अवरुन्धे रुन्धे पञ्चदशः पञ्चदशो भवति पञ्चदश इति पञ्चादशः भवति इन्द्रियम् इन्द्रियमेव एवाव अवरुन्धे रुन्धे सप्तदशः सप्तदशो भवति सप्तदश इति सब्दादशः भवत्यन्नाद्यस्य अन्नाद्यस्यावरुद्धि अन्नाद्यस्येत्यन्नाद्यस्य अवरुद्ध्या अथोः अवरुद्ध्यायुज्यवरुद्धिः अथोप्र अथो त्रैव एव तेन जायते जायते पञ्चविपुंशः पञ्चविपुंशो अग्निष्टोमः पञ्चविपुंश इति पञ्चाविपुंशः भवति अग्निष्टोम इत्यग्निः सोमः भवति प्रजापतेः प्रजापतेराब्दी प्रजापतेरिति आप्ति महाभ्रतवान् महाभ्रतवानन्नाद्यस्य महाब्रतवान् इति महामृतवान् अन्नाद्यस्यावरुद्धि अन्नाद्यस्येत्यन्नाद्यस्य अवरुद्ध्यै विश्वजित् अवरुद्ध्यानित्यवारुध्यैः विश्वचित् सर्वपृष्टः विश्वचिदिति विश्वचित् सर्वपृष्ठोति रात्रः सर्वपृष्ठ इति सर्वा पृष्टः अधिरात्रो भवति अधिरात्रैत्यधिरात्रः भवति सर्वस्य सर्वस्याभिजित्यै अभिजित्य एवस्य त्वा त्वा सवितुः सवितः प्रसवे प्रसवे अश्विनोः प्रसवेति प्रणसवे अश्विनोर्बाहुभ्याम् बाहुभ्याम् वोर्ष्णः बाहुभ्यामिति आददे दद इमाम् इमामगृह्णन् अगृह्णन् दृशनाम् दृशना रथस्य रथस्य पूर्वे पूर्वायुषि आयुषि विलथेषु विदधेषु कव्या कव्येति तया देवाः देवाः सुतम् आ बभोवः बभोवस्य रथस्य सामन् सामन्सरम् सरमारबन्दी आरबन्दीत्या आरबन्दी अभिधासि अभिधा इत्यभिधाः असि भुवनम् भुवनमसि असि यन्तासि असि धर्ता धर्तासि असि सः सोऽग्निम् अग्निम् वै ईश्वानरम् वैईश्वानरकम् सप्रथसम् सप्रसम् गच्छ सप्रससमिति अक्ष स्वाहाकृतः स्वाहाकृतः पृथिव्याम् स्वाहाकृत इति स्वाहाकृतः पृथिव्याम् गन्ता यन्तासि असि यमनः यमनो धर्ता असि धरुणः धरुणः कृष्यै कृष्यैत्वा क्षेमाय क्षेमायत्वा त्वा त्वा त्वा त्वा त्वा रय्यै रय्यैत्वापोषाय पोषायत्वा त्वापृथिव्यै पृथिव्यैत्वान्तरिक्षाय अन्तरिक्षायत्वा त्वा त्वासते सदेत्वाः त्वासते असदेत्वा त्वा त्वा त्वा त्वा त्वाभ्यः अद्भ्यस्त्वा अभ्यैत्यतेभ्यः औषधीभ्यः औषधीभ्यस्त्वा ओषधीभ्यैत्यौषधीभ्यः त्वाविश्वेभ्यः विश्वेभ्यस्त्वा त्वाभूतेभ्यः भूतेभ्यैति भूतेभ्यः विभोर्मात्रा विभोरिति विभूः मात्रा प्रभोः प्रभोः पित्रा प्रभोरितिप्रभोः पित्राश्वः अश्वोसि असि हयः हयोऽसि अस्यत्यः पत्योसि असि नरः नरोऽसि अस्यर्वाः अर्वासि असि सद्विः सद्विरसि असि वाजी वाज्यसि असि वृषाः व्रुशा, वृषासि असि नर्मणाः द्रवणा असि इति नर्मणाः असि ययुः नामासि तस्यादित्यानाम् आदित्यानाम् पत्व तत्त्वानु अन्विः यग्नये अग्नये स्वाहा स्वाहा स्वाहा स्वाहेन्द्राग्भ्याम् राज्ञिभ्याभिः स्वहाभ्यामिन् राज्ञीभ्याम् स्वाहा प्रजापदये प्रजापदये स्वाहा प्रजापते प्रजापतये सह विश्वेभ्यः विश्वेभ्यो देवेभ्यः देवेभ्यः स्वाहा स्वाहा सर्वाभ्यः सर्वाभ्यो देवताभ्यः देवताभ्य इह इह धृतिः धृतिस्सहा सा हेह इह विधृतिः विधृतिस्सहा विधृतिधृतिः सा हेह इह रन्दिः नन्दिस्सहा भूः भूरसि रसिभुवे भुवे त्वा त्वाभुव्याय भव्याय त्वा त्वा त्वा त्वा विश्वेभ्यस्त्वा त्वा भूरेभ्यः देवाः देवा आशा आशापालाः आशापाला एतम् आशापाला इत्याशापालाः एतम् देवेभ्यः देवेभ्योऽश्वम् अश्वम् मेधाय मेधाय प्रोक्षितम् प्रोक्षितम् गोपायत प्रोक्षितमिति प्रोक्षितम् गोपायतेति गोपायत आयनाय स्वाहा प्रायणाय प्रायणा यस्वाहा प्रायणायेति प्रायणाय साहोद्रावाय रुद्रावायस्वाहा रुद्रावायत्युद्रावाय स्वाहोधृताय उद्धृताय स्वाहाधृतायत्युदृताय स्वाहा शूकाराय शूकाराय स्वाहा शूकारायेति शूकाराय स्वाहा सूकृताय शूकृताय स्वाहा सूकृता येति शूताय स्वाहा पलायिताय पलायिताय स्वाहा साहा पलायिताय आपलायिताय सः आपलायितायैत्याः आपलायिताय साहा वल्गदे आवल्गते स्वाहा आवल्गदैत्याः वल्गते साहा परावल्गते परावल्गते स्वाहा परावल्गदैति परावल्गदे सहायते आयते सः आयतैत्याः ये स्वाहा प्रयते प्रयते स्वाहा प्रयतैलिप्रायरे स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा अग्नये स्वाहा स्वाहा सोमाय सोमाय स्वाहा स्वाहा वायवे वायवे स्वाहा स्वाहाम् अपाम् मोदाय स्वाहा स्वाहा सवित्रे सरित्रे स्वाहा साहा सरस्वत्यै सरस्वत्यै स्वाहा स्वाहेन्द्राय इन्द्राय स्वाहा साहा बृहस्पतये बृहस्पतये स्वाहा साहामित्राय मित्राय स्वाहा स्वाहा वरुणाय वरुणाय स्वाहा सा सर्वस्मै सर्वस्मै स्वाहा स्वाहे रिस्वाहा पृथिव्यै स्वाहा सा ह अन्तरिक्षाय स्वाहा साहा दिवे दिवे स्वाहा साहा सूर्याय सूर्याय स्वाहा सः चन्द्रवसे चन्द्रवसे सः सः नक्षत्रेभ्यः नक्षत्रेभ्यः सह सा हा प्राच्यै प्राच्यै दिशे निषेः सः सः दक्षिणायै दक्षिणायै दिशे निषेष्सः सः प्रतीच्यै दिशे विषेष्वहा साहोदीचै प्रतीची दिशे दिशे विषेष्वः स्वाहा दिग्भ्यः दिग्भ्यः स्वाहा दिग्भ्येति दिग्भ्यः स्वाहावान्दरदिशाभ्यः स्वाहा समाहाभ्यः समाहाभ्यस्वाहा स्वाहा शरद्भ्यः शरद्भ्यः स्वाहा शरद्भ्येति अहोरात्रेभ्यः भ्या, स्वाहा अहोरात्रेभ्येभ्यः रात्रेभ्यः स्वाहार्धमासेभ्यः अर्धमासेभ्यः स्वाहा अर्धमासेभ्येत्यर्धमासेभ्यः स्वाहा मासेभ्यः मासेभ्य स्वाहा स्वाहर्तुभ्यः ऋतुभ्य स्वाहाभ्ये त्रुभ्यः स्वाहा संवत्सराय संवत्सराय स्वाहा संवत्सराय यदि स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा स्वाहा स्वाहा स्वाहा यस्वाहा स्वाहा समित्रे सुवित्रे स्वः सः सरस्वत्यै सरस्वत्यै सह सः भूष्णे भूष्णे स्वृहस्पतये बृहस्पतये स्वपा अपाम् मोदाय मोदाय स्वः सः वायवे वायवे स्व मित्राय मित्राय स्वः सा वरुणाय वरुणाय स्वः सः सर्वस्मै सर्वस्मै स्वह स्वाहेति स्वः पृथिव्यै स्वह सा अन्तरिक्षाय अन्तरिक्षाय स्वः सः दिवे दिवे सः सहाग्नये अग्नये स्वः सः सोमाय सोमायस्वः सः सूर्याय सूर्याय स्वः सः चन्द्रमसे चन्द्रमसे स्वः स्वाहा अह्ने स्वः स रात्रि रात्रिः स्वाहा स हृजवे रजवे स्वाहा सः साधवे साधवे स्वाहा सः सुक्षित्यै सुक्षित्यै स्वाहा सृक्षित्या इति सोक्षित्यै से क्षुधे स्वाहा साहाश्रीम्ने साहा आश्रिम्ने स्वाहा सोगाय रोगायस्वाहा रोगा सा हिमाय हिमायस्वाहा सा शीताय शीता यस्वाहा दपाय आतपा यस्वाहा आतपायेत्यादपाय साय अरण्यायस्वाहा साः स्वर्गाय स्वर्गा यस्वाहा स्वर्गायेति स्वभागाय सा रोगाय लोगायस्वाहा स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा भो देवानाम् देवानाम् कर्मणा अपसर्दस्य ऋतस्य पथ्या पथ्यासि असि वसुभिः वसुभिर्देवेभिः वसुभिसुभिः देवेभिर्देवतया देवतया गायत्रेण गायत्रेण त्वा छन्दसायुनग्मिनग्निवसन्देन वसन्देन त्वा तर्तुनाः ऋतुना हविषाः हविषादीक्षयामि ईक्षयामि रुद्रेभिः रुद्रेभिर्देवेभिः देवेभिर्देवतया देवतया त्रैष्भेन त्रैष्णुभेन त्वा त्वा छन्दसा छन्दसायुनग्मि इदञ्जिग्रीष्मेण ग्रीष्मेण त्वा देवेभिर्देवतया देवतया जागतेन जागतेन त्वा त्वा छन्दसा छन्दसा विरज्मि विरज्मि वरुषाभिः वरुषाभिस्त्वा त्वर्तुनाः ऋतुना हविषाः हविषा दीक्षयामि वीक्षयामि विश्वेभिः देवेभिर्देवतया देवतयानुष्टुभेन अनुष्टुभेन त्वा आनुष्टुभेनेत्यानोस्तुभेन त्वा छन्दसा चन्द्रसायन शरदाः शरदाः त्वा कर्तुनाथुना हविषाः हविषा दीक्षयामि दीक्षयाम्यङ्गिरोभिः अङ्गिरोभिर्देवेभिः अङ्गिरोभिरित्यङ्गिरहाभिः देवेभुर्देवतया देवतया पाङ्गेन पाङ्गेन त्वा पा छन्दसा छन्दसा युनग्मिन हेमन्तशिशिराभ्याम् हेमन्तशिशिराभ्याम् द्वा हेमन्तशिशिराभ्यामिति हेमन्तशिशिराभ्याम् ऋतुनाः पृतना हविषाः अहम् दीक्षाम् दीक्षामरोहम् अरुहमृतस्य ऋतस्य पत्नीम् पत्नीङ्गायत्रेण गायत्रेण छन्दसा छन्दसा ब्रह्मणा ब्रह्मणा च चर्तम् ऋतगम् सत्ये सत्येधा अधागुम् सत्यम् सत्यमृते ऋतेधा अधा विद्यधा महीमु ऊषु सुसुत्रामाणम् सुत्रामाणमिह सुत्रामाणमितिसोत्रामाणम् इह धृतिः धृदि स्वाहा स्वाहेह इह विधृतिः विधृदि स्वाहा विधृतिविधृतिः स्वाहेह इह रन्दिः स्वाहेह इह रमतिः रमति स्वाहा स्वाहेदिस्वाहा ईङ्कारायजीङ्काराय साहेङ्क्रदाय इन्द्रः इदाय सा क्रन्दरे क्रन्ददेशाः साक्रन्दरे अवक्रन्ददे स्वाहा अवक्रन्ददैत्यवक्रन्दरे स्वाहा प्रोतरे प्रोथदेशाः सा प्रोथरे प्रप्रोथदेशाः प्रप्रोथदैर्यप्रोहरे स्वाहा ग्रन्थाय ग्रन्थायस्वाः साहाघ्रादाय घ्रादायस्वः सः प्राणाय pranaya swaha pranaye dipranaya swaha dhyanaya dhyanaya swaha ज्ञानायेदि अनाय स्वाहापानाय अपानाय स्वाहा अपानायेत्यपानाय स्वाहा सन्दीयमानाय सन्दीयमानाय स्वाहा सन्दीयमानायति सन्दीयमानाय स्वाहा सन्दिताय सन्दिताय स्वाहा सन्दितायेति सन्दिदाय स्वाहा विश्रित्यमानाय विसृत्यमानाय स्वाहा विसृताय निवेशृताय सः पलायिष्यमाणाय पलायिष्यमाणाय स्वाहा साहापलायिताय पलायिताय स्वाहा साहोपरगृह्यते उपरगृह्यते स्वः उपरगृष्यत इत्युपरगृस्यते साहोपरदाय उपरदाय स्वाहा उपरदाय इत्युपारदाय सः निवेक्ष्यते निवेक्ष्यते स्वहा निवेक्ष्यते इति निवेक्ष्यते स्वाहा निविशमानाय निविशमानाय स्वाहा निविशमानाय स्वाहा निविष्टाय निविष्टाय स्वाहा निविष्टायति स्वाहा निषत्स्यते निषत्स्यते स्वाहा निषत्स्यत स्वाहा निषीदते निशीदते स्वाहा निषीदत निशीदते स्वाहा निषण्णाय निषण्णाय स्वाहा निषण्णायति स्वाहा दृश्यते आदिष्यते स्वाहा स्वाहासीनाय आसीनाय स्वाहा साहासिताय आसीताय स्वाहा स्वाहा निपत्यते निपत्यते स्वाहा निपत्यते इति स्वाहा निबध्यमानाय निबध्यमानाय स्वाहा निबध्यमानायति निपद्यमानाय स्वाहा निपन्नाय निपन्नाय स्वाहा निपन्नायति निपन्नाय स्वाहा शयिष्यते शयिष्यते स्वाहा स्वाहा शयानाय शयानाय स्वाहा स्वाहा शहिताय शहिताय स्वाहा स्वाहा सम्मेलिष्यते सम्मेलिष्यते स्वाहा सम्मेलिष्यते इति सम्मेलिष्यते स्वाहा सम्मीलते स्वाहा सम्मेलत इति सम्मेलरे स्वाहा सम्मिलिताय सम्मिलिताय स्वाहा सम्मिलिताय इति स्वाहा स्वप्स्यरे स्वप्सरे स्वाहा स्वाहा सुपदे सुपदे स्वाहा स्वाहा सुप्ताय सुप्ताय स्वाहा स्वाहा प्रभोत्स्यते प्रभोत्स्यते स्वाहा प्रभोत्स्यते इति प्राभोत्स्यते स्वाहा प्रबुध्यमानाय प्रबुध्यमाना यस्वाः प्रबुध्यमानाय इति प्रबुध्यमानाय स्वाहा प्रबुद्धाय प्रबुद्धायस्वाहा प्रबुद्धाय इति प्राबुद्धाय स्वाहा जागरिष्यते जागरिष्यते स्वाहा स्वाहा जागृते जागृते स्वाहा स्वाहा जागरिताय जागरिताय स्वाहा स्वाहा शुश्रूषमाणाय शुश्रूषमाणा स्वाहा शृण्वदे शृण्वदे स्वाहा स्वाहाश्रुताय श्रुताय स्वाहा स्वाहा वीक्षिष्यते वीक्षिष्यते स्वाहा वीक्षिष्यते दिवि ईक्षिष्यते स्वाहवीक्षमाणाय वीक्षमाणाय स्वाहा वीक्षमाणाय दिवि ईक्षमाणाय स्वाहा वीक्षिताय वीक्षिताय स्वाहा वीक्षिताय दिवि ईक्षिताय स्वाहा सगंहास्यते सगम्हास्यरे स्वाहा सगम्हास्यते इति संहास्यरे स्वाहा सञ्जिहानाय सञ्जिहानायस्वाहा सञ्जिहानायेति सञ्जिहानाय स्वाहोज्जिहानाय उज्जिहानायस्वाहः उज्जिहानायेति तज्जिहानाय स्वाहा विवक्ष्यते विवक्ष्यते स्वाहा विवक्ष्यते विवर्त्यते स्वाहा विवर्तमानाय विवर्तमानाय स्वाहा विवर्तमानाय दि विवर्तमानाय स्वाहा विवृताय विवृताय स्वाहा विवृत्ताय दिविवृत्ताय स्वाहोत्थास्यरे वृथास्यरे स्वाहास्यते स्वाहोत्तिष्ठते उत्तिष्ठते स्वाहा उत्तिष्ठत इत्युदतिष्ठते स्वाहोत्थिराय उत्थिराय स्वाहा उत्थिराय इत्युदस्थिराय स्वाहा विधविष्यदे विधविष्यदे स्वाहा विधविष्यदैरिविधविष्यदे स्वाहा विधोन्मानाय विधोन्मानाय स्वाहा विधोन्मानाय रिविधून्मानाय स्वाहा विधूताय विधूताय स्वाहा विधूताय दिविधूताय स्वाहोक्रग्स्यदे उत्क्रग्स्यदे स्वाहा उत्क्रग्स्यरेत्युदक्रग्स्यदे स्वाहोत्क्रामदे उत्क्रामदे स्वाहा उत्क्रामदे इत्युदक्रामदे स्वाहोत्क्रान्दाय उत्क्रान्दाय स्वाहा उत्क्रान्दाय इत्युदयक्रान्दाय स्वाहा चन्द्रमिष्यदे चन्द्रमिष्यदे स्वाहा स्वाहा चक्रम्यमाणाय सङ्क्रम्यमाणा यस्वाः साः सङ्क्रमिताय सङ्क्रमिता यस्वाः साः कण्डोयिष्यरे कण्डोयिषरे स्वाहा साः कण्डूयमानाय कण्डूयमाना यस्वाः साः कण्डोजिताय कण्डोजिता यस्वाः साः निकषिष्यरे निघषिष्यरे स्वाहा निकषिष्यरे इति साहा निकषमाणाय निकषमाणा यस्वाः निकषमाणाय इति निकषमाणाय साहानिकषिताय निकषिता यस्वाः निकषितायदि निकषिताय साहाय यदति अचिदस्मै तस्मै सह स्वाहायद् यद्विपदि पिबति तस्मै तस्मै स्वाहा स्वाहायद् यन्मेहदि मेहदितस्मै तस्मै स्वाहा स्वाहायद् यक्षकृत् शकृत्करोति करोदितस्मै तस्मै सह स्वाहा रेतसे रेतसे स्वाहा प्रजाभ्यः प्रजाभ्यः स्वाहा प्रजाभ्यैरिक्प्राजाभ्यः स्वाहा प्रजननाय प्रजननाय स्वाहा प्रजननायैदिप्राजननाय स्वाहा सर्वस्मै सर्वस्मै स्वाहा स्वाहेति स्वाहा अग्ने स्वाहा स्वाहा वायवे वायवे स्वाहा स्वाहा सूर्याय स्वाहा स्वाहर्थम् ऋतमसि अस्य ऋदस्य ऋतस्य अर्थम् ऋतमसि असि सत्यस्य सत्यस्य सत्यम् सत्यमसि अस्य ऋदस्य ऋतस्य पन्थाः पन्था छाया छायामृतस्य अमृतस्य नाम नामगत् तत्सत्यम् सत्यम् यत् यत् त्वम् प्रजापतिः प्रजापतिरसि प्रजापतिरिति प्रजापतिः अस्यधि अधियत् यदस्मिन् अस्मिन् वाजिनी वाजिनीव वा, विवशुभः शुभः स्पर्धन्ते स्पर्धन्ते दिवः सूर्येण विशः विशोपः अपोवृणानः प्रणानः पवदे कव्यन् कव्यन् पशुम् न गोपाः गोपा इ्यः गोपा इति गोपाः परिज्मा परिज्मे सप्तमकाण्डे प्रथमः प्रष्टः समाप्तः ओम्